श्रीगणेशाय नमः श्रीगौरी शङ्कराभ्याम् नमः अथ श्री शिवमहापुराणे विद्येश्वरसंहितायां पञ्चदशोऽध्याय देवयज्ञादिषु देशकालपात्रादिवर्णनम् उचो देशादिन् क्रमशो ब्रूहि सूत धर्वा सर्वार्थ वित्तम श्रोतवाच शुद्धम् देवयज्ञादिकर्मसु ततोदश गुणम् गोष्ठम् जलतीरम् ततोदश ततोदश गुणम् बिल्वे कुलस्यश्वस्थमूलकम् ततो देवालयम् विद्यात् तीर्थतीरम् ततोदश ततोदश गुणम् नद्या तीर्थ नद्या ततोदश सप्तगङ्गानदीतीर्थम् तस्यादश गुणं भवेत् गङ्गा गोदावरी चैव कावेरी ताम्रपर्णिक का, सिन्धु च सरयूरेव सप्त गङ्गा प्रकीर्तिता ततोऽब्धितीरे दश च पर्वताग्रे ततोदश सर्वस्मादधिकं यत्रैव रोचते मनः कृते पूर्ण फलं न्येयम् यज्ञदानादिकम् तथा त्रेतायुगे त्रिपादम् च द्वापरेऽर्धम् च दास्मृतम् तु विज्ञेयम् सत्पादोनम् दोनम् ततो सखे शुद्धात्मना शुद्धदिनम् पुण्यम् समफलम् विदुः तस्माद् दश गुणम् ज्ञेयम् रविसङ्क्रमणे बुधा विशुवे तद्दश अयने तद्दश स्मृतम् तद्दश मृगसङ्क्रान्तो तच्चन्द्र ग्रहणे दश ततश्च सूर्यग्रहणे ग्रहणे पूर्णकालोत्तमे विदुः जगद्रूपस्य सूर्यस्य विषयोगाच रोगदम् अतश्च विषशान्त्यर्थं स्नाने दान जपां चरेत् विषशान्त्यस्य काले त्वात् सकाल पुण्यदशमतः चर्मक्षे च वृत्तान्ते च सूर्यरागोपमं विदुः महतां सङ्घकाले च कोट्यर्क ग्रहणं विदुः तपोनिष्ठा ज्ञाननिष्ठा योगिनो यतस्तथा पूजाया पात्रमेते हि पापसंशयकारणं चतुर्विंशतिलक्ष्यं वा गायत्र्याजपसंयुतः ब्राह्मणस्तु भवेत् पात्रं सम्पूर्णफलभोगलम् पात्रं शास्त्रे प्रयुज्यते धातुश्च पातकास्त्राणात् पात्रमित्यभिधीयते गायकं त्रायते पादात् गायत्री तु च देहि स यथार्थ नछति अर्थवाह यो श्लोके प्रय्छति स्वयं शुद्धो हि पोतात्मा नराम संहती का ये जप हि शुद्ध ब्राह्मण उच्यसे तस्मा दान जपे होमे पूजायां सर्वर्मण दान कर्म पात्रं तु ब्राह्मणोऽर्हति अन्नस्य क्षुदितं पात्रं नारी नरमयात्मकम् ब्राह्मणम् श्रेष्ठमाहूय यत्कालेषु समाहितम् तदर्थं शब्दमर्थं वा सद्बोधकमभीष्टदम् इच्छावतः प्रदानं च सम्पूर्ण विदुः यत् प्रश्नानन्तरं तदर्थ फलदं विदुः यत्सेवकाय दत्तं स्यात् तत्पाद फलदं विदुः जाति विप्रस्य दीनवृत्ते द्विज द्विजसभा दत्तमार्थं हि भोगाय भूर्लोके दश वेदयुक्तस्य विप्रस्य स्वर्गे हि दश वार्षिकम् सत्ये हि दशवार्षिकम् विष्णुभक्तस्य विप्रस्य दत्तं वैकुण्ठदं विदुः शिवभक्तस्य विप्रस्य दत्तं कैलासदं विदुः तत्तद् लोकोपभोगार्थं सर्वेषां दानं भेष दशाङ्गमन्नं विप्रस्य भानुवारे तदन्नरः परजन्मनि चारोग्यं दशवर्षम् समविस्मते बहुमानम् अथाह्वानम् अभ्यङ्गम् पादसेवनम् श्वासोगन्धाद्यपूपरसोत्तरम् षड्रसं व्यञ्जनम् चैव ताम्बूलम् दक्षिणोत्तरम् नमश्चानुगमश्चैव सन्नदानम् दशाङ्गकम् सजाङ्गमन्नम् विप्रेभ्यो गजेभ्यो वैदन्नर् अर्कवारे तथारोग्यम् शतवर्षम् समश्नुते सोमवारादिवारेषु तत्तद्वारगुणम् फलम् अन्नदानस्य विज्ञेयम् भूर्लोके परजन्मने, सप्तस्वपि च दारेषु गजेभ्यश्च दशाङ्गकम् आरोग्यादिकमश्मते एवं च तेभ्य विप्रेभ्यो भानुवारे ददन्नर सहस्रवर्षमारोग्यं सर्वलोके समश्मते सहस्रेभ्य तथा दत्त्वां समश्मते एवं सोमादिवारेषु विज्ञेयं हि विपश्चिता भानुवारे सहस्राणां पयस्वीपूत चेतसाम् अन्नं सत्यलोके ह्यारोग्यादि समश्मते अयुतानां तथा दत्त्वा विष्णुलोके समश्मते अन्नं दत्त्वा तु लक्षाणां रुद्रलोके समश्मते बालानां ब्रह्मबुद्ध्या हि देयं विद्यार्थिभिन्न यूनां च विष्णुबुद्ध्या पुत्र कामी नरे वृद्धा रुद्रबु्या ही दिन नरे बाली भारती बुद्धिया बुद्धिकामय नरोत्तमे लक्ष्मी बुद्धियामे नरोत्तमे वृद्धा सु पार्वती बुद्धिया दिर्जन शील वृत्योंश वृत्तिया च गुरु दक्षिण याजितम् शुद्ध द्रव्यमिति प्राहुः तत्पूर्ण फलदं विदुः ब्रह्म प्रतीग्रा दत्तम् मध्यमम् द्रव्यमुच्यते कृषि वाणिज्य कोपेतम् अधमम् द्रव्यमुच्यते क्षत्रियाणाम् शुद्राणाम् हृतकासितम् स्त्रीणां धर्मार्थिनां द्रव्यम् पैतृकम् भर्तृकम् तथा गवादीनां द्वादशीनां चैत्रादिषु यथा क्रमम् वा पुण्यकाले दद्यादिश्च समृद्धये गोभूति लहरा हिरण्याद्ये वासुधान्य च रौप्यं लवण कन्या द्वादशकं तथा गोदाना दत्तगव्येन गोमयेनोपकारिण धनधान्याद्याशितानाम् दुरितानाम् निवारणम् जलस्नेहाद्याश्रितानाम् दुरितानाम् गो तु गोजले कायिकादि तु क्षीरदध्याज्य कैतथा तथा तेषाञ्च पुष्टि विद्येया हि विपश्चिता भोदानं तु प्रतिष्ठार्थं यदानं बलार्थं हि सदा जयं विदु। हिरण्यं जाठ रारं वीर्यं तथा अचम् पुष्टिकरं विद्यात् वस्त्रमायुष्करं विदुः धान्यमन्नं समृद्ध्यर्थम् मधुराहारदङ्गुडम् रौप्यं रेतोऽपि वृद्ध्यर्थं च रसार्थं तु लावणम् सर्वसमृद्ध्यर्थम् पुष्पाण्डम् पुष्किदम् विदुः प्राप्तिदं सर्वभोगानाम् इह चामुत्र च द्विजा यावज्जीवनमुक्तम् हि कन्यादानं वृक्षाणां फलमेव च कदल्याद्यौषधीनां च फलं गुल्मोद्भवम् तथा माषादीनां च मुद्राणाम् फलं शाकादिकं तथा मरीची सस्य पाद्यानां शाकोपकरणं तथा यदृतो यत् फलम् हि विपचितः श्रोत्रादीन् श्रुत्वादिन्द्रियतृप्ति च सदा देया विपचिता भोगार्थम् जिगादीनां चतुष्टिर वेदशास्त्रम् समादाय बुद्ध्वाय गुरुमुखा स्वयम् कर्मणाम् फलमस्तीति बुद्धिरास्तिक्यमुच्यते बन्धुराजभया सर्वाभावे दरिद्रस्तु वाचा वा कर्मणा यजेत् वाचिकं यजनं विद्यां मन्त्रस्तोत्र तीर्थयात्राव्रताद्यं हि कायिकं यजनं विदुः येन ये अल्पं वा यदि वा बहु देवतार्पणबुद्ध्या तपश्चर्या च दानं च कर्तव्यम् उभयं च द प्रतिश्रयं प्रदातव्यं स्ववर्णगुणशोभितम् देवानां तृप्तयेत्यर्थं सर्वभोगपदं बुधै जन्म स्वरा भोगं लभेद्बुध ईश्वरार्पण बुद्ध्यायै कृत्वा मोक्षफलं लभेत् यैमम् पठते मम पठते ृणोति सदा नरः तस्य विधर्मबुद्धिः च ज्ञानसिद्धि प्रजायते इति श्रीशिवमहापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् देशकालपात्रादिवर्णनं नाम पञ्चदशोऽध्यायः ी गौरी शङ्करार्पणमस्तु